श्रीमन श्रीम्मत आदिपर्व चैत्ररथपर्वण वासी सौदासपत्त षट्सप्तमो अध्यायः गन्धर्व उवाच ततो दृष्ट्वा श्रमपदम् रहितं तैः सुतैर्मुनिः निर्जगामसु दुःखार्थः पुनरप्याश्रमात्ततः सोऽपश्यत्सरितम् पूर्णाम् प्रावृट्कालेन वाम्भसा वृक्षान् बहुविधान् पार्थहरन्तीम् तीरजान् बहून् अथ चिन्ताम् समापेदे पुनः कौरवनन्दना अम्भस्य स्या निमज्जेयमिति दुःखसमन्वितः ततः पाशैस्तदात्मानम् गाढम् बद्ध्वा महामुनिः तस्या जले महानद्या निमज्जसु दुःखितः अथ छित्त्वा नदीपाशांस्तस्यारिबलसूदन स्थलस्थन्तम् ऋषिम् कृत्वा विपाशम् समवासृजत् उत्ततारततः पाशैर्विमुक्तः स महान् ऋषिः विपाशेति च नामास्या नद्याश्चक्रे महान् ऋषिः शोकबुद्धिम् तदा चक्रे न चैकत्र व्यतिष्ठत सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि दृष्ट्वा स पुनरेवर्षिर्नदीं तदा चण्डग्राहवतीं भीमां तस्या स्रोतस्य पातयत् सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ततस्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना मत्तुं न पुनरेवाश्रमं ययौ